नारदपुराणम् पूर्वार्थम् अध्यायम् 46. सूद उवाच तच्छ्रुत्वा नारदो विप्रा मैथिलाध्यात्ममुत्तमम् पुनः पप्रचतम् प्रीत्या स नन्दनमुदारधीः नारद उवाच आध्यात्मिकादित्रिविधम् तापं नानुभवेद्यथा प्रब्रूहि तन्मुने मह्यं प्रपन्नाय दयानिथे सनन्दन नन्दन उवाच तदस्य त्रिविधं दुःखमिह जा दस्य पण्डितगर्भे जन्मजराद्येषु स्थानेषु प्रभविष्यतः निरस्तादिशयाह्लादसुखभावैकलक्षणा ेषजं भगवत्प्राप्तिरैका चात्यन्तिकी मदा तस्मात्तत्प्राप्तये यत्नकर्तव्यपण्डितैर्नरैः तत्प्राप्तिहे दुज्ञानं च कर्म चोक्तं महामुने आगमोद्धं विवेकाञ्च द्विधा ज्ञानं तथोच्यते शब्दब्रह्मागममयं परं ब्रह्मविवेकजम् मनुरप्याहवेदार्थं स्मृत्वायं मुनिसतमः तदेतच्छ्रूयदामत्र सुबोधं गददो मम द्वे ब्रह्मणि वेदितव्ये शब्दब्रह्म परं च शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति द्वे विद्ये वेदितव्ये चेत्याह चाधर्वणि श्रुतिः परमात्वक्षरप्राप्तिर्ऋग्वेदादिमया परा व्यक्तदव्यक्तमचरमनीहमजमव्ययम् अनिर्देश्यमरूपं च पाणि पादादिसंयुतम् विभुं सर्वगदं नित्यं भूदयोनिमकारणं व्याप्यम् व्याप्तं यदसर्वं तं वै पश्यन्ति सूरयः तद्ब्रह्म तत तत्परम् धाम तद्ध्येयम् तत मोक्षकाङ्क्षिभिः श्रुति वाक्योदिदं सूक्ष्मं तद्विष्णोः परमं पदम् तदेव भगवद्वाच्यं स्वरूपं परमात्मनः वाचको भगवच्छब्दस्तस्योद्दिष्टोऽक्षयात्मनः एवं निगदितार्थस्य यत्तत्त्वं तस्य तत्त्वतः ज्ञायदे येन तज्ज्ञानम् परमन्यत्रयीमयम् अशब्दगोचरस्यापि तस्य वै ब्रह्मणो द्विधाः पूजायां भगवच्छब्दः क्रियते ह्य उपचारिकः शुद्धे महाविभूताख्ये परे ब्रह्मणि वर्तते भगवन् भगवच्छब्दः सर्वकारणकारणे ज्ञेयं ज्ञादेदि तथा भकारोऽर्थद्वयात्मकः तेनागमपि दास्रष्ट गकारोऽयं मुने ऐश्वर्यस्य समग्रस्य वीर्यस्य यशसश्रियः ज्ञानवैराग्ययोश्चैव षण्णां भग इदीरणा वसन्ति तत्र भूतानि भूतात्मन्यखिलात्मनि सर्वभूतेष्वशेषु वकारार्थस्ततो व्ययः एवमेव महाशब्दो भगवानिति सत्तम परमब्रह्मभूतस्य वासुदेवस्य नान्यगः तत्र पूज्यपदार्थोक्तिः परिभाषासमन्वितः शब्दो यम्नोपचारेण चान्यत्र ह्युपचारतः उत्पत्तिम् प्रलयम् चैव भूतानामागतिं गतिं वेत्तिविद्यामविद्यां च सवाच्यो वाच्यो भगवानिरि ज्ञानशक्ति बलैश्वर्यवीर्य ते चांस्य शेषतः भगवच्छब्दवाच्यानि विना हेयैर्गुणादिभिः सर्वाणि तत्र भूतानि वसन्ति परमात्मनि भूतेषु वसनादेव वासुदेवस्तद स्मृतः काण्डिक्यं जनकं प्राह पृष्ठ केचिद्ध्वजः पुरा नाम व्याख्यानमनं ना तस्य वासुदेवस्य तत्त्वदः भूतेषु वसदे सौन्दर्वसन्त्यत्र च तानियद दादा विधादा जगदां वासुदेवस्तदः प्रभुः स सर्वभूतप्रकृतिं विकारं गुणादिदोषांश्च मुने व्यतीतः अदेतसर्वा वरणोऽखिलात्मा तेनास्तृतं यद्भुवनान्तरालम् समस्तकल्याणगुणं गुणात्मको हित्वादिदुःखावृतभूतसर्गः इच्छा गृहीताभिमदोरुदेकः संसाधिता शेष जगद्धितोऽसौ तेजो बलैश्वर्यमहावबोधं स्ववीर्यशक्त्या दुर्गुणैकराशिः परः पराणां सकलान यत्र क्लशादय परावरेशे स ईश्वरो व्यष्टिसमष्टिरूपो व्यक्तस्वरूपः प्रकटस्वरूपः सर्वेश्वरसर्वनिसर्गवेत्ता समस्तशक्तिः परमेश्वराख्यः स ज्ञायधेयेन ततस्तदोषं शुद्धं परं निर्मलमेव रूपम् संदृश्यते चाप्यवगम्यते च चा तज्ज्ञानमदोऽन्यदुःखम् स्वाध्यायसंयमाभ्यां स दृश्यते पुरुषोत्तमः तत्प्राप्तिकारणम् ब्रह्म तवेत्तत्प्रतिपद्यते स्वाध्यायाद्योगमासीद योगात् स्वाध्यायमामनेत स्वाध्याययोगसम्पत्त्या परमात्मा प्रकाशते तदीक्षणाय स्वाध्यायश्चक्षुर्योगस्तथा परं न मांस चक्षुः साद्रष्टुं ब्रह्मभूतः स शक्यते नारद उवाच भगवंस्तमहं योगं ज्ञातुमिच्छामि तं वद ज्ञादे यन्नाखिलाधारं पश्येयम् परमेश्वरम् सनन्दन उवाच केषिद्ध्वजो यथा प्राहकाण्डिक्याय महात्मने जनकाय पुरायोगं तथाहम् कथयामि ते नारद उवाच काण्डिक्यको भवद्बह्यन्को कोवा केचिद्ध्वजो भवद कथं तयोश्च संवादो योग सम्बन्धवानभूत् स नन्दन उवाच धर्मध्वजो वैजनकतस्य पुष्येमिदध्वजः कृतध्वजोऽस्य भ्राता भूत् सदाध्यात्मरतिर्नृपः कृतध्वजस्य पुत्रोऽभूधन्यः केचिद्ध्वजो द्विजः पुत्रो मिध्वजस्यापि काण्डिक्यजनकाभिधः कर्ममार्गैः काण्डिक्यस्वराज्यादवरोऽपिधः पुरोधसामन्त्रिभिश्च समवेदोऽल्पसाधनः समवेदोल्पसाधनः दुर्गारण्यचरो भवद इयाजसोऽपि सुबहु नयज्ञा ज्ञानव्यपाश्रयः ब्रह्मविद्यामधिष्ठाय तर्तुं मृत्युमपि स्वयं एकदा वर्तमानस्य यागे योगविदाम्बर तस्य धेनुं जखानोऽग्रशार्दूलो विजने वने ततो राजा कदा ज्ञात्वा धेनुं व्याक्रेण चर्त्विजः प्रायश्चित्तं स पप्र किमत्रे दिविधीयता ते चोचोर्नवयं विद्मकशेरुपृच्छ्यदामिति कशेरुरपि कशेरु तेनोक्तस्तधेदि प्राहनारद शुनकम्पृच्छ राजेन्द्र वेद स वेत्स्यदि स गत्वा तमपृच्छन् च न कशेरुर्न चैवाहं न चान्यसाम्प्रतं भुवि वेत्येक एवशत्रुकाण्डिक्यो योजिदस्त्वया स चाखतं व्रजाम्येषप्रष्टुमात्मरिपुं मुने ना प्त एव मया यज्ञे यदि या मां सहनिष्यदि प्रायश्चित्तं स चेत्पृष्ठो वदिष्यति रिपुर्मम ततश्चाविकलो योगो मुनिश्रेष्ठभविष्यति इत्युक्त्वा रथमारुह्य कृष्णाजिनधरो नृपः वनं जगाम यत्रास्ते काण्डिक्यः स महीपतिः तमायान्दम् समालोक्य काण्डण्डिक्यो रिपुमात्मनः प्रोवाच क्रोधताम्राक्षः समारोपितकार्मुकः काण्डिक्य उवाच कृष्णाजिन त्वकवचभावेनास्मान् घनिष्यसि कृष्णाजिनधरे वेत्सि न मि प्रहरिष्यदि मृगानां वद पृष्ठेषु मूढकृष्णार्जिनं न किं येषां मत्वा वृथा चोग्रा प्रहृता सिदसायकाः स त्वामहं हनिष्यामि न मे जीवन् दुर्बुद्धे मम राज्यहरो रिभुः केषिध्वज उवाच पाण्डिक्यसंशयं प्रष्टुं भवं दमहमागदः न त्वां हन्तुं विचार्य तैः कोपं बाणं च मुञ्च वा स पुरोहितः मन्द्रयामास काण्डिक्य सर्वैरेव महामतिः तमोर्मन्त्रिणो वध्यो रिपुरेशवशङ्गदः हदेत्र पृथिवी सर्वा तव वश्या भविष्यदि भाण्डिक्यश्चाकतान् सर्वानेवमेव न संशयः पृथिवी सर्वा मम वश्या भविष्यति परलोकजयस्तस्य पृथिवी सकला मम न हन्मि चेल्लोकजयो मम वयक्त्वसुन्दरा परलोकजयो नन्दस्वल्पकालो महीजयः तस्मान्नैनं हनिष्ये सं यत्पृच्छति वदामि तद् तदस्तमभ्युपेत्याह काण्डिक्यो जनको रिपुं प्रष्टव्यं सर्वं तत्पृच्छत्वं वदाम्यहं तदप्राह यथा वृत्तं मुने ततश्च तं सपप्रच्छप्रायच्चित्तं हि तद्रुतं स चाचष्ट यधान्यायम् मुने केशित्वजायतद प्रायश्चित्तमशेषं हि यद्वै तत्र विधीयते विदितार्थस्स तेनैव मनुज्ञादो महात्मना यागभूमिमुपागत्य चक्रे सर्वां प्रियां क्रमाद क्रमेण विधिवद्यागं नीत्वा सोऽव मृदा प्लुधः कृदकृत्यस्तदो भूत्वा चिन्तयामास पार्थिवः पूजिता ऋत्विज सर्वे सदस्यामानिता मया तथैवार्थिजनोऽप्यर्थो जिदोऽभिमदैर्मया यथाहमर्त्यलोकस्य मया सर्वं विचष्टितं अनिष्पन्नक्रियं चेदस्तथा न मम किं यथा युद्धं तु चिन्तयन्नेव संमारसमहीपतिः काण्डिक्यायन दत्तेदि मया वै गुरुदक्षिणा स जगाम तदो भूयोरथमारुह्य पार्थिवः स्वयम्भुवस्थितो यत्र काण्डिक्योऽपि पुनर्धृष्ट्वा तमायान्तं धृदा युधः तस्तौ हन्तुं कृतमधिस्ममाहस पुनर्नृपः अहं तु नापकाराय प्राप्तकाण्डिक्यमा क्रुधः पुरोर्निष्कृदिदानाय मामवेहि सेमागतम् निष्पादितो मया यागसम्यक्त्वदुपदेशदः सोकं ते दातुमिच्छामि वृणीष्व गुरुदक्षिणां युक्तो मन्त्रयामास स भूयो मन्त्रिभिस्सह गुरोर्निष्कृतिकामो य किमयं प्रार्थ्यतां मया तमोजोर्मन्त्रिणो राज्यमशेषं याच्यदामयम् कृदाभिप्रार्थ्यते राज्यमनायासिदसैनिकैः प्राहस्य तानाः नृपः काण्डिक्यो महापदिः स्वल्पकालम् महिराज्यम् मादृश्यैः प्रार्थ्यते कथं ये दद्भवन्तोऽत्र स्वार्थः साधनमन्त्रिणः परमार्थकथं कोऽत्र नात्र विचक्षणाः इत्युक्त्वा समुपेत्यैनं स तु केचिद्ध्वजं नृपम् उवाच किमवश्यं त्वं दास्यसि गुरुदक्षिणां बाढमित्येव तेनोक्तः काण्डिक्यस्तमधा ब्रवीद भवानध्यात्मविज्ञानपरमार्थविचक्षणः यदि चेद्दीयते मह्यं भवदा गुरुनिष्क्रयः तत्क्लेशप्रशमायालं यत्कर्म तदुदीरय केषिध्वज उवाच न त्वया कस्मान् मम राज्यमकण्टकम् राज्यलाभाद्धिनास्त्यन्यत्क्षत्रियाणामधिप्रियं पाण्डिक्य उवाच केषिध्वज निबोधत्वं मया न राज्यमे दधशेषेण यन्न गृह्णन्ति पण्डिताः क्षत्रियाणामयं धर्मो यत्प्रजापरिपालनं वधश्च धर्मयुद्धेन स्वराज्यपरिपन्थिनां यत्राशक्तस्य मे दोषो नैवास्त्यपकृते त्वया बन्धायैव भवत्येषा ह्यविद्या शाक्रमोज्झिता जन्मोपभोगलिप्सार्थमियं राज्यस्पृहा मम अन्येषां दोपजानेव धर्ममेवानुरुध्यते न याज्ञाक्षत्रबन्धूनां धर्मायैतत्सदां मदम् अदो न याचिदराज्यमविद्यान्तर्गतं तव राज्यं गृध्नन्दिविद्वांसो मम त्वाकृष्टचेतसः अहं मानमह्यपानमदमत्तानमादृशाः केचिध्वज उवाच अहं च विद्यया मृत्युं तर्तुपामः करोति वै राज्यं यज्ञांश्च विविधान् भोगे पुण्यक्षयं तथा तदिदं ते मनोधिष्ठ्या विवेकैश्चर्यदां गतं श्रूयतां चाप्य विद्याया स्वरूपं कुलनन्दन अनात्मन्यात्मबुद्धिर्याख्य स्वे स्वविषया मतिः अविद्यातरुसन्भूतं बीजमेतद्विधा स्थितम् पञ्चभूतात्मके देहे देहि मोहतमोवृत्तः अहमेत दीदित्युञ्जायि कुरु दे, दे कुमदिर्मदिम् आकाशवायु अग्निजलपृथिवीभिपृथक् स्थिते आत्मन्यात्ममयं भावं ककरोदि कलेवरे कलेवरोपभोग्यं हि गृहक्षेत्रादिकं च यत् अदेहे ह्यात्मनि च पुत्रपौत्रेषु तद्देहात्पादितेषु च करोति पण्डितः स्वाम्यमनात्मनि कलेवरे सर्वदेहोपभोगाय देहं चान्यद्यदा पुंसः सदा बन्धाय तत्परं मृण्मयं हि यथा गेहं लिप्यते वै मृदम्भसा पार्थिवोऽयं तथा देहो मृदम्भोले वनस्थितिः पञ्चभोगात्मकैर्भोगैः पञ्चभोगात्मकं वपुः आप्यायते यदि तद पुंसो गर्वोऽत्र किङ्कृतः अनेकजन्मसाहस्रं संसार ससारपदवीं व्रजन् मोहश्रमं प्रयातोऽसौ वासनारेणुगुण्ठितः प्रक्षाल्यते यदा सौम्यरेणो ज्ञानोष्णवारिणा तदा संसार त्वां धस्य यादिमोहश्रमश्रमं मोहश्रमे शमं यादे स्वच्छान्दकरणम् पुमान् अनन्यादिशयाधारः परं निर्वाणमृच्छति निर्वाणमय एवायमात्मा ज्ञानमयो मलः दुःखाज्ञानमया धर्मा प्रकृतेश्चेतुनात्मनः जलस्य नाग्निना सङ्गस्थाली सङ्गात् तथापि शब्दोद्रेकादिकान् धर्मान् करोति हि यथा बुधः तथात्मा प्रकृते सङ्गादाकम् मानादिदूषितः भजते प्राकृतान् धर्मान्यस्तम्भो सोव्ययः सोऽव्ययः तदेतत्कथितम् बीजमविद्याय मया तव क्लेशानां च योगा धन्यन्न विद्यते इति श्रीबृहन्नारदीयपुराणे पूर्वभागे बृहदुपाख्याने द्वितीयपादे षट्चत्वारिंशत्तमोऽध्यायः ओम्